नमो भवाय भवाय नमो नमो भवाय च भवाय नमो नमो भवाय च भवाय च भवाय भवाय च रुद्राय रुद्राय च भवाय भवाय च रुद्राय च रुद्राय च च च रुद्राय च च च रुद्राय च रुद्राय रुद्राय च नमो नमश्च रुद्राय रुद्राय च नमः च नमो नमस्तत नमः सर्वाय सर्वाय नमस्तच नमः सर्वाय नमः सर्वाय सर्वाय नमो नमः सर्वाय तत सर्वाय नमो नमः सर्वाय च शर्वाय च च शर्वाय शर्वाय च पशुपतये पशुपतयेत शर्वाय शर्वाय च पशुपतये च पशुपतये पशुपतयेत च पशुपतयेत च पशुपतयेत च पशुपतयेत पशुपतये च पशुपतये पशुपतये च नमो नमश्च पशुपतये पशुपतये च नमः पशुपतय इति पशुपतये च नमो नमश्च नमो नीलग्रीवाय नीलग्रीवाय नमश्च च नमो नीलग्रीवाय namo nilagreevaya namo namo nilagreevaya cha cha nilagreevaya namo namo nilagreevaya cha नीलग्रीवाय च च नीलग्रीवाय नीलग्रीवाय च सिधण्ठाय सिधे कण्ठाय च नीलग्रीवाय नीलग्रीवाय च सिधण्ठाय नीलग्रीवायति नीलग्रीवाय तसिति कण्ठायषिधिकण्ठायचिधिकण्ठायचिथि कण्ठायचिथि कण्ठाय च श्रिते कण्ठाय चतसि कण्ठायसि च नमो नमस्तसि कण्ठायसि कण्ठाय च नमः श्रितिकण्ठायेतिशिति कण्ठाय च नमो नमश्च च नमःर्दिनेकपर्दिने नमश्च च नमःर्दिने नमः कपर्दिनेकपर्दिने नमो नमः कपर्दिने च च कपर्दिने नमो नमः कपर्दिने च भर्दिने च कर्दिने कभर्दिने चव्युक्तकेशायव्युक्तकेशाय च कर्दिने कपर्दिने चव्युक्तकेशाय च व्युक्तकेशाय च व्युक्तकेशायव्युक्तकेशाय च नमो नमश्च व्युक्तकेशायव्युक्तकेशाय च नमः व्युक्तकेशायते व्युक्तकेशाय नमो नमश्च नमसहस्रा क्षाय सहस्रा क्षाय नमश्च नमसहस्रा क्षाय नमसहस्रा क्षाय सहस्रा क्षाय नमो नमः सहस्रा क्षाय च सहस्रा क्षाय नमो नमः सहस्रा क्षाय च सहस्राक्षाय च सहस्रा अक्षाय क्षाय सहस्राक्षाय च शतधन्वने शतधन्वने च सहस्राक्षाय सहस्राक्षाय च शतधन्वने सहस्राक्षायेति सहस्र कक्षाय च शतधन्वने शतधन्वने च च च शतधन्वने च च च च शतधन्वने च च शतधन्वने च शतधन्वने च शतधन्वने सतधन्वने च नमो नमस्त शतधन्वने सतधन्वने च नमः शतधन्वन इति सत धुन्मरे च नमो नमस्तनमो गिरिशाय गिरिशाय नमस्तनमो गिरिशाय नमो गिरिसाय गिरि साय नमो नमो गिरिसायचतत गिरिसाय नमो नमो गिरिसायथ गिरिसायचत गिरिसाय गिरिसायत शि पिभिष्टाय शि पिभिष्टायत गिरिसाय गिरिसायत चषिपि विष्टायशिपिभिष्टाय चिपिभिष्टाय चिपिभिष्टाय चिपिभिष्टाय चिपिभिष्टाय चिपिभिष्टायसिपिभिष्टाय च नमो नमस्तसिभिष्टाय शिपिभिष्टाय च नमः शिपिविष्टायेति शिपि विष्टाय च नमो नमश्च नमो मेडोष्टमाय मेडोष्टमाय नमश्च नमो मेडोष्टमाय नमो मेडोष्टमाय मेडोष्टमाय नमो नमो मेडोष्टमाय च च मेडोष्टमाय नमो नमो मेडोष्टमाय च मीढुष्टमाय च च मीढुष्टमाय मीढुष्टमाय चे सुमत किसुमते च मेढुष्टमाय मेढुष्टमाय चे सुमते मीढुष्टमायेति मीढुः तमाय च इषुमते चेष्मत इषुमते च नमो नमश्चेषुमत इषुमते च नमः इषुमत इतीषु मते च नमो नमस्त नमो ह्रस्वाय ह्रस्वाय नमस्तच नमो ह्रस्वाय namo hrsvaya hrsvaya namo namo hrsvayach hrsvaya namo namo hrsvayach hrsvayach hrsvaya hrsvayach vamanaaya vamanaayach hrsvaya hrsvayach vamanaaya वामनाय वा मनायच वा मनायचत वा मनायच वा मनायथ वामनायच वा मनाय वा॒ मनायत नमो नमश्च वा मनाय वा मनायत नमः शमो नमस्त नमो बृहदे बृहदे नमस्त नमो बृहते नमो बृहते बृहते नमो नमो बृहते च च बृहते नमो नमो बृहते च बृहते च च बृहते च वर्षीयसे वर्षीयसे च बृहते बृहते च वर्षीयसे वर्षीयसे त वर वर वर नमो नमस्तवर्षीयसे नमः नमो नमस्तत नमो वृद्धाय वृद्धाय नमस्तत नमो वृद्धाय नमो वृद्धाय वृद्धाय नमो नमो वृद्धाय तृद्धाय नमो नमो वृद्धायत वृद्धाय च च वृद्धाय वृद्धाय च संवृध्वने संवृध्वने च वृद्धाय वृद्धाय च संवृध्वने च संवृध्वने संवृध्वने च च संवृध्वने च च संवृध्वने च च संवृध्वने च संमृध्वने च संमृध्वने संमृध्वने च नमो नमश्च संवृध्वने संमृध्वने च नमः संमृध्वन इति सम् वृध्वने च नमो नमश्चमो अग्रियायग्रियाय नमश्च च नमो अग्रियाय नमो अग्रियायाग्रियाय नमो नमो अग्रियाय चाग्रियाय नमो नमो अग्रियाय च अग्रियाय चाग्रियायाग्रियाय च प्रथमाय प्रथमाय चाग्रियायाग्रियाय च प्रथमाय च प्रथमाय प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय च प्रथमाय प्रथमाय च नमो नमश्च प्रथमाय प्रथमाय च नमः च नमो नमश्च च नम आशव आशवे नमस्तत नम आशवेः नम आशब आशभे नमो नम आशवेत चाशभे आशवे नमो नम आशवेत आशवेत चाशव आशभेता जिराया जिराय चाशव आशवेता जिराय जिराया जिराय तता जिराय तता जिराय तचा जिरायत अ जिराय तचा जिराया जिराय तमो नमस्ता जिराय जिराय त नमः च नमो नमस्ततनमीघ्रियाय सीघ्रियाय नमस्ततनमस्यीघ्रियाय नमसि घ्रियाय॑सि नमो नमः घ्रिजायतसि घ्रियाय नमो नमसि घ्रि॒यतसि क्रियायतसि घ्रियायसि घ्रि॒जायतसि भ्यायसि भ्यायतसि घ्रियायसि घ्रियायतसि भ्याय चषिभ्यायसिभ्यायतसिभ्यायतसिभ्यायतसिभ्यायत शीभ्यायतसिभ्यायसिभ्यायत नमो नमस्तसिभ्यायसिभ्यायत ऊर्म्याय नम ऊर्म्यायोर्म्याय नमो नमः ऊर्म्याय चोर्म्याय नमो नम ऊर्म्याय च ऊर्म्याय चोर्म्यायोर्म्याय चावस्वन्याया वस्वन्याय चोर्म्यायोर्म्याय चावस्वन्याय चावस्वन्यायावस्वन्यायददावस्वन्यायददा वस्वन्यायददा वस्वन्यायत अवस्वन्यायददा वस्वन्यायावस्वन्यायत नमो नमस्तास्वन्यायावस्वन्यायत नमः अवस्वन्यायेत्यप स्वन्याय च नमो नमश्च च नमःतस्यायस्रोतस्याय नमश्च च नमस्रोतस्याय नमः च च स्रोतस्याय नमो च स्रोतस्याय च च च स्रोतस्यायस्रोतस्याय चद्वीप्यायद्वीप्याय च स्रोतस्यायस्रोतस्याय चद्वीप्याय चद्वीप्यायद्वीप्याय चद्वीप्याय चद्वीप्याय चद्वीप्याय च द्वीप्याय च द्वीप्यायद्वीप्याय चेति च नमो भवाय भवाय नमो नमो भवाय च च भवाय नमो नमो